अथर्ग्वेदे पञ्चमाष्टके प्रथमोऽध्यायः ओ स्पृषे नरादिवो अस्य प्रसन्नाश्विनाहुवेदरमाणोऽर्कैः या सद्य उस्राव्युषिज्मो अन्तान्युयोषतः पर्युरोवरांसि ता यज्ञमाशुचिभिश्चक्रमाणा रथस्य भानुम् रुरुचोरजोभिः पुरोपरांस्यमितामिमानापोधन्वान्यति यातो अज्रान् ताहत्यध्वर्तिर्यदरध्रमुग्रेत्थाधि य ऊह तु सश्वरश्वैः मनोजमेभिरशिरैः श्रयद्धे परिर्दाशुषो मर्त्यस्य तानम् यसोजरमाणस्य मन्मोपभूषतो युजुजानसप्ती शुभम् रक्षमिष मूर्ध्यम् वहन्ता होता यक्षत् प्रत्नो अधृग्युवाना ता वल्गोदस्या पुरुषागतमा प्रत्नानव्यसा वचसा विवासे या शंसते सुपदेशम्भविष्ठा बभूव रेणुभिर्योजनेभिर्भुजन्तापतत्रिभिरणसो निरुपस्थात् विजयुषारथ्यायातमद्रिम् श्रुतम् हवम् मृषणावध्रिमत्याः दशस्यन्ता आशयवे पिप्य सुमतिम्भुरण्यो यद्रो दशे प्रदिभो अस्ति भो माहेणो देवानामुतमत्यत्रा तदा आदित्या वसवो रुद्रियासो रक्षो युचेतपुरखम् दधात य ईम् राजानावृतधा विदधद्रजसो मित्रो वरुणश्चिके एतत। गम्भीराय रक्षसे हेतिमस्य द्रोघा आयचिद्वचसहानवाय अन्दरैश्चक्रैस्तनयाय वर्तिर्द्युमदाय आतम् ध्रुवतारथे येन सनुत्येन त्यज सामर्थ्यस्य वष्यतामपि शीर्षाववृत्तम् आपदमाभिरुतमध्यमाभिर्निरुद्भिर्यामाभिर्वाक् दृढस्य चिद्गोमतोऽभिजस्य दुरो वर्तम् गृह्णते चित्रनाति क्वात्यावल्गोपुरुहूताद्यधूतो न स्तोमोऽपि तन्नमस्वान् आयो अर्वाङ्ना सत्यापमर्थ प्रेष्ठाह्य सथो अस्य मन्वन् अरम् मे गन्तम् हवनायास्मै गृह्णाना यथापि वाथो अन्धाः परिहद्यद्भृत्तिर्याथो रिषो न यत्परो नान्तरस्तु तुर्यात् अकारिभामन्द्रोपरिभन्नस्तारिबर्हिः सुप्रायणतमम् उत्तारहस्तो यजुर्ववन्दावान्नक्षन्तो अद्रय आञ्जन् ऊर्ध्वो वा आमग्निरध्वरे स्वस्थात्प्ररातिरेति जूर्णिने कृता चे प्रहोता आगूर्तमना उराणो युक्तयो नासत्याहवेमन् अधिश्रिये दुहिता सूर्यस्य रथम् तस्थौ पुरुभुजा प्रमाया मायाभिर्मायिना भूतमत्र नरामृतो जनिमन्यज्ञियानाम् युवम् श्रीभिर्दर्शताभिराभिः शुभे पुष्टिमोहतु सूर्यायाः प्रवाम्बयो वपुषेऽनुपप्तन्नक्षद्वाणी सुष्ठुताधिष्ण्यावाम् आवाम्बयोश्वासो बहिष्ठा अभिप्रयो नासत्या वहन्तु रथो मनोजवा असर्जीषः पृक्ष इषितो अनुपूर्वे पुरुहि वाम् पुरुभुजादेष्णन् धेनुन्न इषम्सक्राम् स्तुतश्च वाम् मार्ध्वेषु स्तुतिश्चरसाश्च दे वा मनुरातिमग्मन् उतमरुद्रे भर यस्य च पक्वा शाण्डोदाधिरणिनस्मद्दिष्टीन् दशपशासो अभिषाच ऋष्वान् संवाहं शतानाः सत्या सहस्राश्वानां पुरुपन्था गिरेदात् भरद्वाजाय वीरनो गिरेदाद्ध रक्षा हंसि पुरुदम् ससा स्युः आवाहँंशुम्ने परिमन्सो ऋभिष्याम् पुरुश्रिय उषसो रोचमाना अस्थुरपान्नोर्मयोरुशन्तः कृणोति विश्वाऽसुपथा आसुगान्यभूदुवस्वी दक्षिणा मघोनी भद्रादृक्षपुर्विया विभास्युत्तेषो दिर्भावभोद्यामपप्तन् आविर्वक्षः कृणुषे वहन्ति सेमरुणा सोरुषन्तो गावः सुभगामुर्भिया प्रथाना अपे एजते शूरो अस्ते एव बाधते तमो अधिरो नवोढाः सुगोतते सुपथा पर्वतेष्वपाते अपस्तरसि स्वभावो सा न आवह पृथुयामन्त्रिष्मे रयिन्दि सावहयोक्षभिरवातो सोवहं वहसिजोषमनु त्वन्दिवो दुहितर्याः देवी पूर्वभूतौ ब्रह्मनादर्शता भूः उक्ते वयश्चिद्वसतेरपक्त नरश्च अमासते वहसि भूरि वाममुषो देवि या भानुरारुषरा राम्या स्वज्ञायतिरस्तमसश्चिदक्तो न वितध्ययुररुणयुग्भिरश्वैश्चित्रम् भान्त्युषसश्चन्दरथाः अग्रञ यज्ञस्य बृहतो नयन्तेर्विता बाधन्ते तमऊर्म्यायाः श्रवो वाचमिषमूर्धम् वहन्तेर्निदाशुष उषसोमर्त्याय मघोनीर्वीरवत्पद्यमाना अवोधात विधते रत्नमद्या इदाहि वो विधते रत्नमस्तीरा वीराजदाशुष उषासः इदा विप्राजरतेज दुःखा इदाहित उषो अद्रिशानो गोत्रागवामङ्गिरसो गृणन्ति या उच्चादिवो दुहितः प्रत्नमन्नो भरद्वाजवद्भिधते मघोनि सुवीरम् श्रवो नः वपुर्नुतच्चकितुषेचितस्तु समानम् नामधेऽनुपत्यमानम् मर्ते सन्यद्दोहसे पीपायसकृच्छुक्रन्दुदुहे पृश्निरोधाः ये अग्नयो न शोषुचन्निधानाद्भिर्यत्रिर्मरुतो वा वृथन्त रेण वो हिरण्यया स एषाम् साकं ध्रम्णैः पुंस्ये विष्टभूमन् रुद्रस्य ये मीषुषः सन्ति पुत्रायांश्चोऽनुदातुर्भलध्यै विदेहि मारामहो महीषासेत्पृष्टिः सुभे एगर्भमाधात् नय जनुषो यान्वा अन्तः निर्यद्दुह्रेषु तयो रुजो शमनुः श्रिया तम्बमुक्षमाणाः मक्षो न येषु दोहसे चिदया आ नाम मा धृष्णुमारुतम्बधानाः नयेस्तौ ना न अयासो ओ मह्ना नो चित् सुदानुरमयास दुग्रान् तयितुग्राश्रवसा धृष्णुषेण उभे युजन्तरोदसे सुमेके अधस्मैषु रोदसी श्वशोऽ चिरामवत्सुतस्थौ न रोकाः अनेनो वो मरुतो यामो अस्मनश्वश्चिद्यमजत्यरथीः अनवसो अनधीशो रजस्थोर्विरोदसी पथ्यायाति साधन् नास्य वर्तानतरुतान्वस्ति मरुतोयमवथवाजसातौ प्रचित्रमर्कम् गृणते तुराजमारुतायस्वतपसे भरध्वम् ये सहा अंसि सहसा सहन्ते रेजते अग्ने पृथिवीमखेभ्याः त्रिषेमन्तो अध्वरस्ये एव विद्युतृषुच्यवसो जुह्वो ओनाग्नेः अर्चत्र योजुन यो न मरुतो अधृष्टाः तम् ऋधम् तम् मारुतम् राजदृष्टिम् रुद्रस्य सोनुम् हवसाभिवासे दिवः श्रद्धा आयशुतयो नाम उग्रा अस्प्रध्रन्न विश्वे एषाम् वस्वताम् ज्येष्ठतमा गीर्भिर्मित्रावरुणा स्तृणीते मनीषोपप्रिया नमसा बर्हिरच्छा यन्तो मित्रावरुणा वधृष्टम् छद्विर्यद्वाम्बरोध्यम् सुदानो आयातम् मित्रावरुणा सुषस्त्युपप्रिया नमसा हूयमाना संयावप्रस्थो अपसे भजनान्श्रुधि यतश्चिद्यतथो महित्वा अश्वानया बाजिना पूतबन्धोता यद्गर्भमदितिर्भरध्यै प्रयामहि महान्ता जायमाना घोरामर्ता यरिपवेनिदेधः विश्वे यद्वारम् ब्रह्मना मन्दमानाः क्षत्रम् देवासो अदधुः सजोषाः परि यद्भूतो रोदसेति दुर्वे सन्ति स्पशो अदभ्यासो हे क्षत्रम् धारये एथे अनुद्योन् ब्रह्मेथे सानुपमादिपद्योः दृह्णो नक्षत्र उत विश्वदे ए गो भूमिमातान्धासिनायोः ता विग्रन्थैथे जठरम् प्रणध्या आयत्सद्मसभृतयः पृणन्ते न मृश्यन्ते युवतयो वा आतावियत्पयो विश्वजिन्वाभरन्ते जिह्या सदमेतम् सुमेधा आयद्वा सत्यो अरतिरते भूत् तद्वा अम् महित्वम् कृतान्नामस्तु युवन्दाशुषे विच इष्टमह्माह प्रयद्वा अम्मित्रा वरुणा स्फूर्धम् प्रिया धामजुपधिता मिनन्ति न ये देवास ओहसा नमर्ता पुत्राः ची सासोभरम् ते शंसन्ति केचिन्निविदो मदानाः आद्वाम्भ्रवामसत्यान्युक्ता न किर्देवेऽभिरयरसो महित्वा अवो रिक्था वार्दिशो अभिष्टौ युवोर्मित्रावरुणावस्कृतो यो अनु यद्गाव स्फुरा न जिप्यन् धृष्णुञ्ज्यद्रणे सृष्ट्यैवा यज्ञमुद्यतः स जोषामनुष्पद्वृत्तमर्हिषो यजध्यै आय इन्द्रावरुणा विषे अद्य महे शुम्नाय महापवर्तत ता हि श्रेष्ठा देवता तुजाशूराणांस्यमिष्ठाता हि गणेः नमस्येभिश्वोषैः सुम्नेऽभिरिन्द्रावरुणा जगाना वज्रे एनान्यश्च वसाहन्ति वृत्रम् सि शक्यन्यो वृजने एषु विप्राः नाश्चयन्नरश्च वा मृथन्त विश्वे ए देवासो नराम् स्वगोऽर्ताः प्रयेभ्य इन्द्रावरुणामहित्वाद्यौश्च पृथिविभूतपुर्वी सहित्सुदानुस्व वाहम् वृतावेन्द्रायो वाहम् वरुणदाशदित्वन् विशासद्भिषस्तरे दास्वान्वंसद्रयिम् रजिमतश्च जनान् न युवन्दाश्वराय देवा रयिम् धत्थो वसुमन्तम् पुरुक्षुम् अस्मे स इन्द्रावरुणा वपि स्यात्प्रयो पृतनः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा दयिष्यात् येषाम् शुष्मः पृतनासु साह्वान्प्रसद्योद्युम्नादिरते चतुरिः नो न इन्द्रावरुणा कृणाना भृङ्कम् प्रजिंसौश्वय देवा इत्था गृणन्तो महिनस्य शर्द्धोपो न नावा दुरितातरेम ्राजे बृहते मन्मनुप्रियमर्च देवायवरुणाय सप्रथाः अय्य उर्वीमहिना महिलः कृत्वा विभात्यजरो न शोचिषा इन्द्रा वरुणा सुतपा विमं सुतम् सोमम् विमतम् मद्यम् धृतौ रता युवो रथो अद्भरम् देववेतजे प्रतिस्पसरमुपयाति पीतजे इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथा इदम् वामन्धः परिषिक्तमस्मे आसद्यास्मिन्बर्हिषिमादयेथाम् सम्वाङ् दुषेथा यजन्द्रविणम् च सत्तमरिष्टैर्नः या विश्वा आसाञ्जलितारामतेनामिन्द्राविष्णो कलशा आसो मधाना प्रभामाना अवन्तु प्रस्तोमा आसो गीयमानासो अर्केः इन्द्राविष्णो मदपते मदानामासोमय्या तन्द्रविणो दधाना संवामञ्जन्तत्तुभिर्म तेनाम् संस्तोमास शस्यमानास उक्तयेः आवाश्वासो अभिमातिषाह इन्द्राविष्णो स धमादो वहन्तु जुषेताम् विश्वाहवनाम तेनामुपब्रह्माणि शृणुतम् गिरो मे इन्द्राविष्णो तत्पनयाय्यम् वां सोमस्य मद उरुचक्रमाथे अरुणतमन्तरे क्षम्बरीयो प्रसतम् जीवसे नो रजा अंसे इन्द्राविष्णो हविषा वा वृथानाग्राद्वारा नमसा रातहव्या घृता सुतेर्द्रविनन्धत्तमस्मे समुद्रस्थः कलशः सोमधानाः इन्द्रा विष्णोऽपि पतम् मध्वो अस्य सोमस्य दस्राजठरम् वृणेथा धांसि मदिराण्यग्मन्धुपब्रह्माणि शृणुतम् हवम् मे उभाजिज्ञथुर्न पराजयेथेन पराजिज्ञेकरश्च नयनोः विष्णो यदपस्पृथेथान् त्रेधा सहस्रम् वितदैरयेथाम् धृतवते भुवनानामभिश्रियोर्वे पृथ्वे ्यावा पृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा असश्चन्ति भूरिधारे वयस्वते कृतम् दुहाते स्मृते शुचिरते राजन्ते अस्य भुवनस्य रोदसी अस्मे रेतस्यञ्च तञ्जन्मनुर्हितम् यो वामृजवे क्रमणाय रोदसे मर्तो ददाशिषणे ससाधते प्रजाभिर्जायते धर्मणस्परि युवोऽसिक्ता विश्वरूपाणि संव्रता गते नद्या वा पृथिवी अभिहृते कृतश्रिया कृतवृजा कृतावृता उर्वे पृथ्वे हो त्रवूर्ये पुरोहिते इद्भिप्राः ईडते सुम्नविष्टये मथुरोद्यावापृथिवी विविक्षताम् मधुश्च्युता मधु े यज्ञम् द्रविणम् च देवता महिश्व गोपायमस्मे सुवीर्यम् ऊर्जन्त्योश्च पृथिवीरबिन्वताम् पिता माता विश्वपिता सुतंससा संव्राणे रोदसे विश्वशम्भुवा सनिंवाजम् रयिमस्मे समिन्वता उदुष्यदेवः स पिता हिरण्यया सुक्रतोः घृतेन पाणि अभिप्रश्नुते मखो युवा सुदक्षोरजसो विधर्मणि देवस्य भजम् सवितुः समीपनि श्रेष्ठे दावने यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः अलब्धेभिः सवितः पादुभिष्पम् हिरण्ययजुक्वः सुव्यसे रक्षामाकिर्नो अहशंस ईषद उदुष्य देवः सभिता दमो ना हिरण्यपाणिप्रति अयो हनुर्यजतो मन्दलिह्व आदाशुषे सुपति भूरिभावम् उतो अयाम् उपभक्ते बाहो हिरण्यया दिवोरोहांसेरुहत् पृथिव्या अरे रमत्पदयत्कच्चिदभ्यम् वाम मज्जस वितर्वामुश्वो दिवे दिवे वाम भस्मभ्यम् सामेः वामस्य हि क्षजस्य देव भूरे रजा धिया वाम महानि प्रथमानि चक्रतुः युवम् सौर्यम् स्वा अर्विश्वातमास्य हतम् निदश्च इन्द्रा सोमा वासयुषासमुत्सोर्यन्न यथो ज्योतिषासह उपद्याम् स्कम्भतु स्कम्भरेनाप्रथतम् पृथिवीम् मातरम्बे इन्द्रासोमा महिमपःपरिष्ठाम् हतो वृत्रमनुवाञ्जो रमन्यत णांस्यैरयतन्नदी नामा समुद्राणि पप्रसुः पुरोणि इन्द्रासोमा पक्वमास्वन्तर्निगमाविद्रुभक्षणासु जगृधुरनपिनद्धमासुरुषच्छित्रासु जगतेष्वन्तः इन्द्रासोमा युवमङ्गतरुत्रमपत्यसा तम् श्रुत्यम् रराचे युवंशुस्वन्दर्यम् चर्षणिभ्यः सम्विंव्यसुप्रतनाशाः मुग्रा प्रथमजा रता वा बृहस्पतिराङ्गिरसोऽहविष्मान्हज्मात्राघर्म सत्पितार आरोदसे वृषभोरो रवेति जनाय जिद्य एव तव लोकम् बृहस्पतिर्देवहोतौ चकार धन्वत्राणि विपुरो दर्दरेति जयन् शत्रूम् रवित्राम् गृत्सुसाहन् निमहो व्रजान् गोमतो देव अपशिषाः सन् स्वा अरप्रतीतो बृहस्पतिरहम् च मित्रमर्कैः सोमा आरुद्राधारये एतामसूर्या अम्प्रवामिष्टयोरमश्नुवन्तु दमे एतमे सप्त रत्ना दधा अनाशन्नो भूतम् दिपदेशम् चतुष्पदे सोमा आरुद्रा विबृहतम् विशो चेममे भाया नो आरेवा आचेच्छा निररुतिम् पराचैरस्मे भद्रासौ श्रभसानि सन्तु सोमा आ रुद्रायुवमेतान्यस्मे विश्वा तनोषु भेषजानि धत्तम् अपस्यतम् मुञ्चतन्नो अस्ति तनोषु बद्धम् कृतमेनो अस्मत् तिग्मायुधौ तिग्महे एति सुषेभौ सोमा आरुद्राविह प्रणोमुञ्च तम् वरुणस्य पाशाद्गोपाय तन्नमनस्य मानादस्येव भवति प्रदेकञ्जद्वर्मे धन्वनागा धन्वनादिञ्जयेम धन्वना धनुःशत्रोरपकामम् वना सर्वाः प्रदिशो जयेम वक्ष्यन्ते वेदागनी्यायम् समने पारयन्ति समने मजोषाः मातेव पुत्रम् विभृतामुपस्थे अपशत्रो म् विध्यताम् संविधाने आर्त्मी इमे वि स्फुरन्ते इ अमित्रान् बह्वीनाम् पिता पौरस्य पुत्रश्चिश्चा कृणोति समना भगत्याः सङ्काः सर्वाः पृष्ठे निनद्धो जयति प्रसूतः रचयतिष्ठन् नयति वाजिनः पुरो यत्र कामयते सुषा अभिषो नामनः पश्चादनु यच्छन्ति रश्मयाः ते पुरान् घोषान् गण्मते वृषपाणयोश्वारथेभिः सह वाजयन्तः अपक्रामन्तः प्रपदैरमित्रान् क्षिणन्ति शत्रोङ्ग्रणपव्य्ययन्तः रथवाहनम् हविरस्य नाम यत्रायुधन्निः तमस्य वर्म तत्रारथमुपशग्मं सदेम विश्वाः भयन् सुमनस्य मानाः स्वादृशंसदः पितरोगजोधाः कृच्छे श्रिनः शक्ते एव गभीराः चित्रसे एना इषु बला अमृद्राः सतो वे ऐरा उरवो व्रातसाः ब्राह्मणा सः <Sess> -so ः पातु दुरिता दृता वृथो रक्षामाकिर्नो रशम् स ईशत सुवर्णम् वस्ते मृगो अस्यादन्तो गोभिः सन्नद्धापतति प्रसूता यत्रा सञ्च विचद्रवन्ति तत्रास्मभ्यमिषपः शर्मजम् सन् वृजीते परिगृङ्िनोऽश्मा भवतु नस्तनोः सोमो अभिप्रवीतु आजङ्घ्रन्ति सान्द्रेदाघनाम् अश्वा अश्वाजनिप्रजे एतसोऽश्वान्समत्सुचोदय अहिरिव भोगैः पर्येति बाहुञ्ज्याय आहेतिम् परिबाधमानः हस्तघ्नो विश्वा भजुनानि विद्वान्पुमान् पुमान् सम्परिपातु विश्वताः आदा आक्ताय अयोमुखम् इदम् पर्जन्यरेतस इश्वै देव्यै बृहन्नमाः अवसृष्टा परा आपतशरौ ये ब्रह्म संशिते गच्छामित्रान् प्रपद्यस्व मामेषाम् कञ्चनोच्छिषः यत्र पाणाः सम्पतम् निरुवाराभिशिखा इव तत्रादो ब्रह्मणस्पतिरदिशर्म यच्छतु मर्माणि ते वर्मणा छादयामि सोमस्वा राजामृतेनानुमस्ताम् उरोर्वरी योरुणस्ते कृणोतु जयन् तन्त्वानुदेवा मदन्तु यो नः स्वो अरणो यश्च निष्ट्यो जिघां सति देवास्तम् सर्वे एधूर्वन्तु ब्रह्म वर्म ममान्तरम् अग्निम् नरोलेतिभिररण्योः विश्वेश्वरविरूपाक्ष विश्वरूप सदाशिव शरणम् भवभूतेश करुणाकरशङ्कर हर शम्भो महादेव विश्वेशामरवल्लभ शिवशङ्करसर्वात्मन्नीलकण्ठ नमोऽस्तु ते मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे अमृतेशाय शर्वाय महादेवाय ते नमः उग्रायोग्राघनाशाय भीमाय भयहारिणे ईशानाय नमस्तुभ्यम् पशूनाम् पतये नमः दश सप्त च नामानि मण्डलान्तेषु यः पठेत् शिवलोके महीयते नास्ति मृत्युभयम् तस्य पापरोगादि किञ्चन यज्ञेशाच्युलगोविन्द माधवानन्दकेशव कृष्णविष्णो ऋषेकेशवासुदेव कृष्णाय गोपिनाथाय मुरवैरिणे रुक्मिणीशाय गोपाय नमो नमः साक्षान्मूलप्रमाणाय विष्णोरमित तेजसे आद्याय सर्ववेदानाम् ऋग्वेदाय नमो नमः हरिहर शिवशङ्कर वामन वासुदेव विरामस्तावत् विश्वेश्वराय नमः ओम।, ओम श्री श्रीगुरुभ्यो नमः हरिहि ओम हस्तच्युति जनयन्तः प्रशस्तम् दूरे दृशङ्ग्रहपतिमथर्युम् तमग्निमस्ते वसो प्रतिलक्षमवसे कुतश्चित् दक्षा यो यो दम आसीत्याः पुरो नोजश्रया सूर्म्यायविष्ठा तां शश्वम् न उपयन्ति वाजाः ते अग्नयोग्निर्भ्योपरन्निः सुवीराः सश्रोऽशुचम् तद्युमन्ताः यत्रा नरः समासते सुजाताः दानो अग्नेधिया रयिम् सुवीरम् स्वपत्यम् सहस्य प्रतस्तम् नय्या वातरति यातुमाभान् उपयमेति युवतिः सुदक्षम् दोषावस्कोर्हविष्मते घृता चे उपस्मै अग्ने पदहारा विश्वा अग्नेपदहारातेर्येभिस्तपोभिरदहोजरोऽथम् प्रणिस्वरम् चातय स्वामी वा आयस्ते अग्न इधते अनेकम् वसिष्ठशुक्रदेदिवः पावका कुतो न एभिस्तवथैरिहस्याः द्रियेते ए, ए अग्नेभेदिरे अनीकम् वर्ता नरः पित्र्यासः पुरुत्रा उतो न एभिः सुमना इह स्याः इमे नरो वृत्रहत्ये विश्वा अदेभिरभि सन्तु ये मेधिरम् पनयन्त प्रशस्ताम् माशोने शूने अग्ने निषदामनृणाम् मा शेषसो वीरता परित्वा प्रजापते दुर्याः सुदुर्या ी नित्यमुपयाति यज्ञम् प्रजावन्तम् स्वहत्यम् क्षयन्नः स्वजन्मना शेषसा वावृधानम् पाहि नो अग्ने रक्षसो अजुष्टात् पाहितोर्तेरलसो अघायोः वायुदापृतनायो रष्यान् सेदग्निरग्नीत्यस्पन्यान्यत्र पाजीतनयो वीणुपाणिः सहस्रपाठ अक्षरा समेति चेदग्निर्यो वनुष्यतो निपाति समेद्धा रम स उरुष्यात् सुजाता सः वीराः अयम् सो अग्निराहुतः पुरुत्रायमीशा आनः समि दिन्धे हविष्मान् परियमेत्यध्वरेशु होताः त्वे अग्न आहवना निभूते ईशाना स आजूयामनित्याः उभा कृण्वन्तो ओवहतु विजेधे इवो अग्ने वीततमानि हव्याजस्रो वक्षि देवता तिमच्छा प्रतिन ईंसुरभिणिं यन्तु मा नो अग्ने वीरते परादा दुर्वाससेवतये मानो अस्यै मानाः क्षुधेमा रक्षसरतापोपा नोदमेवावन आजुहूर्थाः नो मे ब्रह्माण्यग् उच्छशाधि त्वन्दे मघवद्भ्यः सुषोदः स्या गोभया स आ ते यूल्यम् पात स्वस्तिभिः सदा नः त्वमग्ने सुहवो रण्सन्द्रक्षु दीति सोनो सहसोदिः मा स चातनये नित्या धङ्मा वीरो अस्मन्नर्यो विदासीत मानो अग्ने दुर्भृतजे स चैषु देवेऽद्धेष्वग्निशुप्रवोचः माते अस्मान् दुर्मतयो भ्रुमाचिद्देवस्य सूनो सह सोनशन्त समर्थो अग्नेऽस्वनीकदेवानमर्त्येय आज्योतिहव्यम् स देवतापसुवनिम् दधाति यम् सूरिरर्थे पृच्छमान एते महोनो अग्ने सुविदस्य विद्वान् रयिम् सूरिभ्य आवहा बृहन्तम् येन पजम् सहसा वन्मदेवा वीक्षिता स आयुषा सुवीराः नो मे ब्रह्माण्यग्न उच्छशासित्पन्दे वघवद्भ्यः सुचूदः रातोऽस्या भोभया स आ ते यूयम् इति पञ्चमाष्टके प्रथमोऽध्यायः